श्रुतायुरपिकालिङ्गो मणिरत्नमनुत्तमं दक्षिणात् सागराभ्याशात् प्रावारांश्च परःशतान् औदकानि स बलिं चादाय भारत अन्येभ्यो भूमिपालेभ्यः पाण्डवाय न्यवेदयत् चन्दनं मुख्यं भारान् षण्डवतिं ध्रुवं पाण्डवाय ददौ पाण्ड्यशङ्खां स्तावत एव चन्दनागरुचानन्तं मुक्ता वैदुर्यचित्रकाः चोलश्च केरलश्चोभौ ददतु पाण्डवाय वै अश्मको हेमशृङ्गीश्च दोग्ध्रीर्हेमविभूषिताः स वत्साः कुम्भदोहाश्च गाः सहस्राण्यदादश सैन्धवानां सहस्राणि हयानां पञ्चविंशतिम् अददात् सैन्धवो राजा हेममाल्यैरलङ्कृतान् सौवीरोहस्तिभिर्युक्तान् रथांश्च त्रिशतावरान् जातरूपपरिष्कारान् मणिरत्नविभूषितान् मध्यन्दिनार्कप्रतिमांस्तेजसा प्रतिमानिव बलिञ्च कृत्स्नमादाय पाण्डवाय न्यवेदयत् रत्नानि विविधानि सहस्रशः हाराङ्गदांश्च मुख्यान् वै विविधं च विभूषणं दासीनामयुतं बलिमादाय भारत सभाद्वारि नरश्रेष्ठदिदृक्षुरवतिष्ठते दशार्णश्चेदिराजश्च शूरसेनश्च वीर्यवान् बलिञ्चकृत्स्नमादाय पाण्डवाय न्यवेदयत् काशिराजेन हृष्टेन बलिराजन् निवेदितः अशीतिगोसहस्राणि शतान्यष्टौ च दन्तिनां विविधानि च रत्नानि काशिराजो बलिन्ददौ कृतक्षणश्च वैदेहकौसलश्च बृहद् बलः ददतुर्वाजिमुख्यांश्च सहस्राणि चतुर्दश शैब्यो वसादि मुक्तान् ऋगर्लवयद भूमिपोमित हांस्त मुक्ता मुख्याण शत दासीसहस्राण कावासीना श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः शूद्रा विप्रोत्तमार्हाणि राङ्कवाण्यजिनानि च बलिञ्चकृत्स्नमादाय भरुकच्छनिवासिनः उपनिन्युर्महाराज हयान् देश जान